नमो नमः स्वागतं सर्वेषां नमस्ते नमो नमः अस्तु आरम्भं कुर्मः हरि ओं भगिनी हरि ओम् नमस्कारः नमस्कारः भगिनी नमस्कारः नमस्कारः स्वागतं सर्वेषाम् तु राधा भगिनी प्रार्थना आरम्भम् करोति वा सरस्वती नमस्तुभ्यम् वरदे कामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शांताकारं भुजगशयनम् पद्मनाभम् सुरेशं विश्वधारं गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् अस्तु अस्तु अधुना सप्तमी विभक्ति इति विषयः प्रचलन अस्ति तत्र वयम् आदौ पठितवन्तः तस्य एकवारं पुनरावर्तनं कृत्वा अग्रिमे गच्छामः पश्यन्तु तत्र स्क्रीन उपरि तालिका पश्यामः तालिकां दृष्ट्वा एकवारं पठनं भवेत् अनन्तरं पुस्तकं प्रति गच्छामः पश्यन्तु अत्र वयम् एतत् आरम्भे आरम्भे वयं स्वीकृतवन्त अकारान्तपुल्लिङ्गि राम इकारान्तपुल्लिङ्गि मुनि उकारान्तपुल्लिङ्गिगुरु ऋकारान्तस्त्रीलिङ्गि मातृ आकारान्तस्त्रीलिङ्गिमाला इकारान्तस्त्रीलिङ्गिमती ईकारान्तदीर्घ इकारान्तस्त्रीलिङ्गी नदी एतेषां शब्दानां सप्तम्यन्तपदानि कानि एकवचनांत, द्विवचनान्त बहुवचनान्त पदानि कानि एतत् सर्वं वयं दृष्टवन्तः तस्य एकवारं पठनं कृत्वा वयम् अग्रिमे पश्यामः अस्तु डाक्टर् अम्बिकापतिमहोदय एकवारं तत् पठति वा न श्रूयते न श्रूयते मया एवं न श्रूयते आं श्रूयते भगिनि श्रूयते खलु आम् गीताञ्जलि भगिनी न श्रूयते चेत् एकवारं कृत्वा एक पुनः एकवारं प्रवेशं करोतु न श्रूयते भगिनि श्रूयते अस्तु अस्तु अम्बिकपतिमहोदय भवान् पठति वा सप्तमी अखारान्दरामशब्दः शब्दमि रामे रामयोः रामेषु इकारान्द मुनिशब्दः मुनै मुनौ मुन्योः मुनिषु उकारान्दगुरुशब्दः सप्तमी गुरौ गुरु गुर्वोः गुरुषु ऊकारान्दमातृशब्दः मातरी मात्रोः मातृषु आकारान्दमालाशब्दः सप्तमी मालायां मालयोः माला मालासु मति इकारान्द्रीलिङ्गमतिशब्दः मतौ मत्यां मत्योः मतिषु इकारान्द स्त्रीलिङ्ग नदी शब्दः नद्यां नद्योः नदीषु सम्यक् वयं तु पठितवन्तः गतपक्षे एतत् वयं पठितवन्तः अधुना गतसप्ताहे वयं किं कृतवन्त एतत् इत्युक्ते तत्र उकारान्त तनु इति उकारान्त स्त्रीलिङ्गिशब्द चञ्चु ऊकारा दीर्घ ऊकारा हाँ दीर्घ ऊकारा चंचू अन त्र मातृ तत्व एक बार लिखित ऋकाराशीविंगे तरह फल फल प्रथमा विभक्ति अकारात नपुसकिंगे फल इकारातनपुसकिंगे दधी उत्तनपुसकलिंगे अंबूस वह कृतव गत सप्ताह पुनः एकवारं तस्यापि पठनं भवान् एव करोति वा अम्बिकापतिमहोदय सप्तमी उकारन्द तनु शब्दः तनौ तन्वां तन्वोः तनुषु उकारन्दचञ्चु शब्दः चञ्च्वां सञ्च्वोः सञ्चुषु ऋकारान्दमातृशब्दः मातरि मात्रोः मातृषु अकारान्दनपुंसलिङ्गफलशब्दः फले फलयोः फलेषु दधि इकारान्द दधि शब्दः दग्नि दग्नि द ददनी दध्नोः ददिषु hmm. उकारान्त अम्बु शब्दः hmm. अम्बुनोः अम्बुषु अस्तु hmm. hmm. अत्र पश्यन्तु अत्र एकः अंश अहं वक्तुम् इच्छामि अत्र पश्यन्तु मुनि इकारान्त पुल्लिङ्गिशब्द इकारान्तपुल्लिङ्गिशब्दमुने तत्र मुनौ एवं तत्र सप्तमी विभक्ति एकवचनान्त एकवचनान्तरूपं भवति परन्तु इकारान्तस्त्रीलिङ्गिशब्दमति तत्र रूपद्वयम् मतौ मत्यां हा तत् मुनौ मतौ द्वयोः मध्ये साधर्म्यं वर्तते परन्तु यदि शब्द इकारान्तस्त्रीलिङ्गि भवेत् चेत् तत्र इतोपि एकं रूपं मत्यामिति परन्तु तत्र इकारान्तपुल्लिङ्गि शब्दः तत्र द्वितीयरूपं वैकल्पिकरूपं न सम्भवति परन्तु शब्द इकारान्तश्रीलिङ्गि अस्ति चेत् रूपद्वयं मत्तौ मत्या इति भेदः मनसि भवेत् अस्तु अधु। अधुना वयं पुस्तकं प्रति गच्छामः वयं तु तत्र पृष्ठक्रमाङ्क एतत् हा वयं कृतवन्तः मन्ये वयं तत्र दशत हा इत्युक्ते प्रथमतः ब्रह्मसरोवरतः वयं फलानि पर्यन्तं वयं कृतवन्तः अधुना एकादशः शुकनासोपदेशः शुकनासोपदेश इति कादम्बरी तत् हा शुकनासोपदेश अत्र Uh, पचन्तु अत्र सूचना का आवरणे विद्यमानस्य शब्दस्य सप्तमीविभक्तिरूपेण रिक्तस्थानानि पूरयत इति अस्ति अधुना अत्र एकादश कादम्बरी इति आवरणे शब्द तत् शब्दस्य सप्तमीविभक्तिरूपम् अत्र आवश्यकम् अस्तु रामभगिनी भवती आरम्भं करोति वा एकादशतः कादम्बरमाभिः अस्ति वा अस्तु भगिनि अस्तु भगिनि शुकलासोपदेशः कादम्बरी अस्ति क्षम्यतां बेनि हा अत्र किं करणीयं पश्यन्तु हा अधुना चिन्ता मास्तु अत्र ब्रह्मसरोवर कुरक्षेत्रमिति आवरणे ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति कुत्र अस्ति सप्तमीविभक्तिरूपम् कस्य सप्तमीविभक्तिरूपम् कुरुक्षेत्रे अस्मि मञ्चे वृद्यन्ति एवं हा गङ्गौत्री हिमगिरिः हिमगिरि पुल्लिङ्गी इकार मुनिवत् अतः सप्तमी किं भवति गङ्गौत्री हिमगिरौ अस्ति इति कथाः पुराणि पुराणानि तत्र किमस्ति पुराणानि इत्युक्ते प्रथमाविभक्ति बहुवचनान्त पुराणेषु इति बहुवचन पुराणेषु बहु सन्ति हंसाः तडावे तरन्ति अश्वाः युद्धभूमिः अत्र युद्धभूमिः कथमस्ति युद्धभूमिः मति एव मति वयं दृष्टवन्तः खलु मत् उमत्याम् अतः युद्धभूम्याभूमौ सिंवा गुहा गुहाास्त्रीलिंगी गुहा, मलासुहासु वसं वृक्षायुर्वेद अग्निपुराणे अस्ट कृषका केदार किम केदार केदारा प्रथमा विभक्ति बहुवचना अतः तत्र पदस्य अपि बहुवचनन्तरूपं भवति केदारेषु राम यथा रामे रामयोः रामेषु तथा केदारेषु फलानि जले एव अधुना स्पष्टमस्ति खलु हा अधुना एकादश पठतु देशः कादम्बर्याम् अस्ति सम्यक् पक्षिणः नीथ नीठानि नीठान् निवसन्ति नीठानि नी। कथं भवति फलं मङ्गीरान् नी। लक्षलं फले फलानि फलं फले तेन किं भवति अस्माभिः किं करणीयम् सप्तम्यक्तपदेषु बहुवचनन्तरूपं किं भवति सम्यक् अधुना अधुना जानु जानु इत्युक्ते किं भवती जानति वा जानु इत्युक्ते अन्यकोऽपि साहाय्यं करोति वा जानु इत्युक्ते किं तदस्ति जानु इति उकारान्तनपुसकलिङ्गकारान्तनपुंसकलिङ्ग तदस्माभिः दृष्टवन्त उकारान्तनपुसकलिङ्गे तस्य किं भवति पश्यतु उकारान्तनपुंसकलिङ्गशब्द तस्य किं भवति अत्र जानुनी हा उकारा अम्बुनी अम्बुनोः अम्बुषु अतः अम्बुत्र जानुनि जानुनि सम्यक् मे अग्रिमे।, अग्रिमे जानु अभवत् विमानानि सैनिकस्य जानुनी व्रणः व्रणः अभवत् गम, खम् इत्युक्ते किम् गमनं न परन्तु खम् इत्युक्ते अन्यकोपि इत्युक्ते पश्यन्तु भगिनि तत्र खगः इति एकं शब्दं जानाति खलु खग खगः खगः इत्युक्ते ये खं गमनं करोति आकाशे गमनं करोति ते खगः हा इत्युक्ते तत्र तत् अस्ति अकारान्तनपुसकलिङ्गे शब्दः ख इति तस्य खम् इति अकारान्तनपुसकलिङ्गे प्रथमाविभक्ति खं खे खानि इति भवति खं खे अत्र खे एव सप्तम्यन्तपदं भवति खे इत्युक्ते आकाशे खगः खम् खम् इति प्रथमाविभक्ति परन्तु तत ख इति नकारान्त क्षम्यताम् अकारान्त न पुस्तकलिङ्गमे इति आगच्छति विमानानि खे सञ्चरन्ति अगरी में सन्यासी सन्यासी देह अभिमन कौन दे हाँ देह देहु देहे। न भवि किम देहवचना अस्त अत अस्कवान सप्तम्य ूप कभीम न कौ हाँ देहाभिम त्यक्तवा ते साधना कुरानी खलु संना देह में, ओके, सब, सब, इदी, सब इदी शब्द है, है, है प्रयोग अर् <coughs> भावे इत्युक्ते सद्भावः इति यत् शब्दः यः शब्दः एषः शब्दः तत्र सद् इति शब्दस्य प्रयोगः भवति सद् सद्भाव सज्ज सद् सद् इति सद्वृत्ति सद्भाव इति वयं वदामः खलु सद्भावम् hmm. सद्भावे सद् इति शब्दस्य प्रयोगः hmm. अग्रिमे भक्तः वृत्तिः hmm. शरणम् अन्विच्छति भक्तः hmm. अधुना अत्र किं भवति बुद्धिशब्दस्य सप्तम्यन्तं सप्तमी एकवचनान्तरूपं बुद्धिः शब्दः साधर्म्यं साधर्म्यस्य चिन्तनं मति शब्दः एव बुद्धिः मतिः धृतिः शक्तिः mm. एवं सर्वम् इकारान्तस्त्रीलिङ्गिशब्दः तत् मतिः शब्दस्य सप्तम्यन्तपदं किं भवति पश्यस्तोत्र भगिनी मतीशब्दस्य किं भवति अत्र किमस्ति मतीशब्दस्य तथैव अत्र किं भवेत् किं भवेत् अत्र बुद्धिशब्दस्य भक्तः बुद्धौ व्याम् ौ इति पश्यतु सर्वे पश्यन्तु सर्वेषां कृते वदामि अत्र अन्तिमस्वरस्य स्थाने वा अन्तिमवञ्जनस्य स्थाने एव प्रति परिवर्तनं भवति हा तत् बुद्धिः तत्र बकार उकार बकार उकार द्वयोः मध्ये किमपि परिवर्तनं मास्तु अतः बुद्धौ तत्र बुद्धौ वा बुद्ध्याम् एव भवति तत् अन्तिमस्थले एव तत्र प्रत्ययस्य परिवर्तनं सप्तमी सप्तमी प्रथम सप्तमी विभक्ति एकवचनान्तपदं बुद्धौ वा बुद्ध्यां स्पष्टमस्ति रमा भगिनी सुकारान्तमस्ति एव मति मति इकारान्त अग्रिमे अपि अग्रिमे अपि करोतु करो परमेश्वरः पृथिवी पुण्यः गन्धः पुण्यः गन्धः परमेश्वरः पृथिव्यां पृथ्व्यां अत्र अधुना साधर्म्यस्थलं तत्र नदी पृथिवी इति स्त्रीलिङ्गिपदम् अन्तिमस्वरः दीर्घ इकार अन्तिमस्वर दीर्घ इकार तथा नदी इति शब्दे नद्याम् इति सप्तम्यन्तं पदं सप्तमी एकवचनान्तपदम् तत्र इति अत्र किम् आगच्छति तथैव पृथिव्यां किमस्ति पृथिव्यां पृथिव्यां आसतु अग्रिमे यतिः सन् संसिद्धिः संसिद्धिः पुनः यतति यतिः संसिद्धि संसिद्ध्यां अत मतिः सादृशी संसिद्धिः इकारान्त श्रीलिङ्गे अतः यदा मतिः आगच्छति तदा रूपद्वयम् यथा भवती उक्तवती तत् संसिद्ध्यां संसिद्धौ यतिः संसिद्ध्यां संसिद्धौ पुनः यतते यततामपि सिद्धानां कश्चिन् मां वेत्तितत्त्वता इति अस्ति खलु हा इत्युक्ते यतिः संसिद्ध्यां पुनः पुनः यतते इति पुनः पुनः पुनरावर्तनं भवति तदा अधुना अग्रिमे अपि करोतु भगिनि विंशति त्वं त्वं शुचिः देशे आसनम् स्थापयुचि शुचौ शुचौ शुच्यां शुचिः इत्युक्ते पवित्र शुच्यां वा शुचौ मत्यां मत्तौ शुच्या अस्तु अस्तु धन्यवादः भगिनि धन्यवादः अग्रिमे तत् वीणा भगिनी करोति वा विंशतितः आरभ्य विंशतिः भवति एकविंशति कार्याकार्यव्यवस्थितिः शास्त्रम् एव प्रमाणं कार्याकार्यव्यवस्थितौ mm. व्यवस्थितौ mm. mm -hmm. इतोपि एकः mm -hmm. रूपद्वयं स्थितौ mm -hmm. इति एक द्वितीयं चिन्तयतु स्थितौ शलिका मती मतौ मत्यां स्थितिः किं भवेत् अह मत्यां कार्यकार्यव्यवस्थां कार्यकार्य व्यवस्थित्यां व्यवस्थित्याम् इति अस्तु अन्तिमः भागः अन्तिमे भागे एव परिवर्तनम् अधुना अत्र अहम् एकम् उदाहरणं मम कक्षायां ददामि तत्र छात्राणां कृते अस्ति तत्र आयोनिक् बोण्ड् फार्मेशन् इति सर्वे जानन्ति खलु सोडियं क्लोरैड् आयोनिक् बोण्ड् फ़ार्मेशन् पाठशालायां तत् अस्ति खलु रसायनशास्त्रविषये वा जानन्ति वा न जानन्ति भगिनी तत्र किं भवति तत्र बोण्ड् फार्मेशन् कदा भवति यदा तत्र वन् आटम् डोनेट्स् इलेक्ट्रान् एण्ड् द अदर् आटम् एक्सेप्ट् इलेक्ट्रान् रैट् यत्र कुत्र भवति परिवर्तनम् औटर् मोस्ट् आर्बिट् मध्ये भवति खलु या कक्षा अस्ति औटर् मोस्ट् आर्बिट् परिवर्तनं डोनेशन् कुत्र भवति औटर् मोस्ट् औटर् परन्तु तत्र तत्र केन्द्रक न्यूक्लियस् यत् अस्ति वा फस्ट् आर्बिट् तत्र किमपि परिवर्तनं न भवति परिवर्तनं कुत्र भवति औटर् मोस्ट् आर्बिट् मध्ये एव तथैव अत्र कार्याकार्यव्यवस्थितिः भवतु नाम किमपि भवतु अस्माकम् अवधानं किम् अन्तिमः वर्णः कः इकार अस्ति दीर्घवा रस्व ह्रस्वः अस्ति अस्ति अतः फीलिङ्ग् अस्ति अस्तु अस्माकं तावदेव मती शब्दमनसि आगच्छति मती किं भवति रूपद्वयं मत्तौ मत्यां भवति अतः अत्र किं स्थितौ स्थित्याम् अनन्तरं कार्याकार्यव्यवस्थितौ कार्याकार्यव्यवस्थित्याम् कार्या इति आगच्छति तस्मात् रां किमपि नाम परन्तु अस्माकम् अवधानम् अन्तिमः वर्णः इति अस्तु भगिनि अग्रि अग्रिमे तव बुद्धिः समाधिः अचला तिष्ठति तव बुद्धिः समाधौ आ, समाधौ अत्र किं भवति समाधि समाधि इति पश्यतु तत्र यथा भवती उक्तवती तथैव अस्ति समाधि इति पुल्लिङ्गिरूपम् अतः एकम् एव रूपं मुनौ समाधौ समा समाधौ एव समाधौ सम्यक् उक्तवती भवती अग्रिमे पण्डितः ब्राह्मणः गौः च समदर्शी भवतिण्डितः ब्राह्मणौ वापकौ हा अत्र पश्यतु भगिनि ब्राह्मणः कीदृशः रामः एव अकारान्तपुल्लिङ्गकुः अपि अकारान्तपुल्लिङ्ग तदा किं भवति पण्डितः रामे ब्राह्मणे ब्राह्मणे अग्रिमेके वा श्वपाके योग्यं श्वपाके इति भवति तस्य सप्तमन्तरूपं गवि गौशब्द किञ्चित् प्रकारेण प्रचलति गौ धेनुः तत्र गवि वा गविः गविदर्शी भवति भगितु अत्र श्वपाकः इत्युक्ते किं भगिनि हा अत्र किमस्ति तत्र न एतत् सर्वं भगवद्गीतायाम् अस्ति सर्वेषामत्र श्लोकानाम् एव पङ्क्तयः सन्ति अत्र तत्र श्वपाके इत्युक्ते तत्र तस्मिन् समये वर्णाश्रमः प्रचलत् प्रचलन् आसीत् वर्णाश्रमः इति पद्धतिः अतः तत्र क्षुद्रः ब्राह्मण इति श्रेष्ठजाति इति तस्मिन् समये आसीत् इति हा वर्णाश्रमपद्धति अनुसरेण तत्र ब्राह्मणे श्वपाके इत्युक्ते तत्र शुद्रजाति इति ब्राह्मणे गौ गौः गौ। गौ। गौ। गौ। इत्युक्ते पशुजगत् वा प्राणिजगत् प्राणजगति अपि प्राणिनां जगति अपि सः समदर्शी एव समदर्शी ईक्वलि uh, e हा अस्तु भगिनि हा हा हा अग्रिमे अग्रिमे ईश्वरः सर्वभूतानां हृद्देशः तिष्ठति ईश्वरः सर्वभूतानां हृद्देशे तिष्ठति सत्यं हृद्देशे तिष्ठति सर्वभूतानां हृद्देशे ईश्वरस्य सर्वभूतानां हृदयेशा अर्जुन अर्जुन तत् अस्ति हृद्देशे तिष्ठति सत्यम् अग्रिमे आपत्तयः वीरः धैर्यं न जहाति आपत्तयोः अत्र अहं मन्ये तत्र किं भवति तत्र आपत्तयः इति न भवेत् वस्तुतः आपद इति स्त्रीलिङ्गिशब्दः तकारान्तस्त्रीलिङ्गिशब्दः तत्र आपद् uh आपदौ -huh. आपद, आपद इति अस्ति प्रथमार्थः अस्ति uh -huh. अतः तत्र uh -huh. सप्तमी आपत्सु इति भवति तत् तत्र uh -huh. आपत्तय दृश्यते परन्तु वास्तविकम् अहं मन्ये तत्र आपद् एव भवेत् इति हा आपदौ uh -huh. uh -huh. आपदः तत् अपत् अपत्सु इति आपत्सु वीरः धैर्यं न जहाति न अपत्सु सङ्कटसमये अपि वा तत्र विपत् विपत्ति पर, आगच्छति तदापि वीरः धैर्यं न जहाति अस्तु भगिनी एव सः तिष्ठति अग्रिमे चमूः भयं नास्ति ना, चमोः चमू चमू इति इत्युक्ते तु उकारान्तस्य लिङ्गि उकारान्तपद्रीलिङ्गि चमू इति तस्य किं रूपं भवति चमयोः वा <laughs> चम्वाम् इति भवति अह चम्वाम् चम्वा चम्वाम् अनन्तरं वध्वां वधू इति शब्दस्य वध्वां च अग्रिमे कृतेः कृतेः जलम् उद्भवति स्थित्यां सम्यक् स्थित्यां जलम् उद्भवति एकं रोगं सम्भवति वा स्थितौ स्ति सम्यक् उत्तमम् अग्रिमे अर्जुनः तेजोराशिः विश्वरूपं पश्यति अर्जुनः राशिः इति राशिः इति वस्तुतः राशि इति पुल्लिङ्गिशब्दः अस्ति अस्माकं मनसि राशिः इत्युक्ते श्रीलिङ्गि भवे इति आगच्छति परन्तु राशिः इत्युक्ते पुल्लिङ्गि शब्दः तेजो राशि तत्र विश्वरुग्दर्शनयोगः अस्ति खलु एकाव्रिवेर् ब्रैट् ब्रैट् ब्रैट् इति राम राम रामस्य रामस्य वा तेजो हरि मुनिशब्दस्य सप्तमी किमषु वा तेजो राशिषु भवती पश्यतु अत्र मुनि शब्दस्य मुनी मुनी मुनी मुनि मुनि मुनि मुनि हानोः मुनिषु अतः अत्र अत्र किं भवेत् तेजोराशिः राशा। तेजोराशौ वा भगिनि सत्यम् यथा मुनिशब्दस्य मुनौ भवति तथा अत्र तेजोराशि शब्दस्य तेजोराश तेजोराशौ अस्तु किमर्थम् पुल्लिङ्गिशब्दः अस्ति अत्र भवति तेजोराशौ विश्वरूपम् पश्यति अस्तु धन्यवाद भगिनी धन्यवादः अग्रिमे में राधा भगिनी आं भगिनि पठतु कृपया कोष्टक सहायेन कोष्टकसहाय्येन यतोदाहरणं वाक्यानि वदत उदाहरण उदाहरण अश्रु नेत्रयोः अस्ति अश्रुनेत्रे अश्रुनेत्रयोः अस्ति किमर्थमस्ति द्विवचनान्तः इषवः तुनीरे अस्तिशवः तुरयोः अस्ति तत्र योद्धारः सेने योद्धारः सेनयोः अस्ति सेनयोः अस्ति सेनयोः अस्ति कन्दुकानि स्यूतौ कन्दुकानि स्यूतयोः अस्ति स्यूतयोः कथाः इतिहासौ कथाः इतिहा इतिहासयोः इतिहासयोः सत्यम् सन्ति सन्ति औषधं कूप्यौ औषधं कुप्योः सन्ति औषधं कूप्योः अस्ति अस्ति ओ एक औषधम् ओके कथाः कारे औषधं कूप्योः अस्ति कन्दुकानि हस्तौ कन्दुकानि हस्तयोः सन्ति सन्ति कङ्कणानि कङ्कणानि सारि कङ्कणानि ओके कङ्कणानि हस्तौ कङ्कणानि हस्तयोः सन्ति सर्वत्र विवचनं सत्यं योग्य अश्वाः अयने अश्वाः अयनयोः सन्ति आम् अयनयोः आयन... अग्रे नूपुरे पादौ नूपुरे पादयोः सन्ति सम्यक् सम्यक् द्विवचनान्तरूप उत्तमं धन्यवादः भगिनी धन्यवादः भगिनि अधुना अग्रिमे गीताञ्जलि भगिनी भवती पठति वा वाक्यानि हा पठतु गिरयः सर्पः गिरीषु सञ्चरति hmm. बहुवचनं ah, भगिनी सत्यम् कन्धारः कन्धराः सर्पः hmm. कन्धारन्धारेषु सञ्चरतिषु ah, कन्दरेषु सञ्चरति ah. गुल्माः सर्पः ah. गुल् गुल्मेषु सञ्चरति सत्यं योग्य सर्पः गुहाः गुहेषु गुल् गुल्म गुल, गुल्म इति जानन्ति खलु गुल्म इत्युक्ते बुशेष इति हा तत्र अभिषेकः अस्ति सर्वं बुसेश इति गुल्म्य आमां बुषे गुहेषु सञ्चरति तत्र गुहा गुहा भगिनी गुहा इति आकारान्तस्त्रीलिङ्गि शब्द तस्य बहुवचनान्तपदं गुहा अधुना मालाशब्द मालाशब्दस्य विषये मालासु लैक् गुहासु सम्यक् सर्पः गुहा सत्यं सरव सरव असु स्त्रीलिङ्ग वा भगिनी तत् तरु तरवः तरु उकारान्तः उकारान्तस्त्रीलिङ्ग न पुल्लिङ्ग तरुः पुल। वृक्षः तरुः इत्युक्ते वृक्षः भानु सर्पः तरु तरुः तरु सञ्चरति वा तरुषु सञ्चरति तरुषु सञ्चरति लताः सर्पः लतायाषु माला किं भवति मालासु लतासु लतासु सञ्चरति सत्यं बिलानि सर्पः इकारान्तस्त्रीलिङ्गना भगिनी सर्पः बिलेषु सञ्चरति बिलेषु सत्यं बिलानि बिलानि फलं फले फलानि फलेषु बीजेषु सत्यं सर्पः वाल्मिकानि वाल्मिकानि वाल्मीकेषु सञ्चरतिचरतिचरष तत् वल्मिके तत् वाल्मीकिवृषि वयं सर्वे जानीमः खलु वाल्मिक तत् वल्मिक इति वल्मिकेषु सखा शाखाः सर्पः आकारान्त स्त्रीलिङ्गः भगिनि आमां शाखा स्त्रीलिङ्गाखासु सञ्चरति सत्यं यदि सर्वम् उत्तमप्रकारे अत्र पुस्तके दत्तमस्ति तेन अस्माकं दृढीकरणं भवति मनसि रूपाणि कानि कीदृशानि एवं सर्वम् उत्तम, धन्यवाद गीताञ्जलि धन्यवादः अग्रिमे बग, जयन्तिभगिनी भवती पठति वा अग्रिमे आं बेनि पठामि विशेष प्रयोगाः प्रयोगा यतो एकनिमिषम् यथा यथा यतो उदाहरण यतो उदाहरणं वाक्यानि वदत् अस्तु बेनि एकनिमिषं तत्र किञ्चित् एक निम्स एक व्याकरण अंश मन मन आगत तत्व किमस्त्र पश्य विषयूप आधार सप्तमी विभक् तत्सूत्र अतीव महत्वपूर्ण अस्त कारक विभक्ति प्रकरण आधारोदी आधार अक आधार सप्तम आधारूपेण आगे हाँ तत्यूप हा आधार अत आधार कस्टी वयं सर्वे जानीमः फुलानि पर्णानि वृक्षे सन्ति वा फलानि वृक्षे सन्ति तत् कस्य आधारः अस्ति साक्षात् तत्र आधारः दृश्यते फिसिकल् आधारः इति वक्तुं शक्नुमः परन्तु mm. अत्र विषयरूप आधारः इत्युक्ते तत्र साक्षात् mm. आधारः न परन्तु विषयरूपे एव अधुना भवती जयन्ती भगिनी भगवद्गीतायां भवती सर्वं श्लोकानां तत्र पुनरावर्तनं करोति पठनं करोति तत् एवं सर्वम् आधाररूपेण विषयस्य आधारः mm. मनसि mm. विषय अधिष्ठानं वयं वदामः ईश्वरस्य okay. अधिष्ठान मनसि भवेत् आधार। इति तत् आधारः अतः तत्र विषयरूपः आधारः आधारोऽधिकरणम् mm. इति सूत्रमस्ति अधुना पठतु अस्तु मम गीतायाम् अभिरुचिः अभिरुचिः अस्ति मम स्वधर्मे अभिरुचि स्वधर्मे मतिः अस्ति मम गुरुः विश्वासः गु मम गुरौ विश्वासः अस्ति मम संस्कृति uh, संस्कृतौ संस्कृति संस्कृतौ अभिमानः अस्ति संस्कृति न एकवारं मति एव पुल्लिङ्गि नीलिङ्गि अतः संस्कृतौ संस्कृत्यां सत्यं सत्यम् उत्तम अभिमानः अस्ति मम कार्य मम कार्यं मम कार्ये रुचिः अस्ति मम मातायां भक्तिः अस्ति तदस्ति मातरितरी आं बेगि आं भगिनि आं भगिनि क्षम्यता मातरि अस्तु मम मातरी मम मातरी भक्तिः अस्ति मम संस्कृते प्रीतिः अस्ति मम परध मम परधर्मे अनाशक्तिः अस्ति अस्माकं प्रयुज्य वदनीयं खलु बेनि वदतु वदतु अस्माकम् अस्माक अस्माकं गीतायाम् अभिरुचिः सन्ति खलु बेनिक् तत् अस्माकं गीता गीतासु वा गीतायाम् अभिरुचिः अस्ति वदतु वा भवेत् वदतु वा अस्तु अस्तु भवेत् इत्यपि वक्तुं अभिरुचिः वर्धनीयः वर्धनीया एवं सर्वं वक्तुं शक्नोति अस्तु भगिनि स्वधर्मेषु मतिः मतिः सन्ति मतिः मतिः अस्ति मतिः अस्ति मतिः अस्ति अस्तु भगिनि गुरु गुरुषु अस्माकं गुरुषु विश्वासः विश्वासः अस्ति अस्माकं संस्कृत अस्माकं संस्कृतेषु अस्माकं संस्कृतेषु संस्कृति अत्र संस्कृतिम्ये एव किमस्ति तत्र अन्तिमभागे एव संस्कृतिः संस्कृतिषु अभिमानः अस्ति अस्माकम् अस्माकं कार्येषु रुचिः अस्ति अस्माकं मातरी मातृ मातृषु अस्माकं मातृषु भक्तिः अस्ति अस्माकं संस्कृ संस्कृतेषु प्रीतिः अस्ति अस्माकं परधर्म परधर्म धर्मेषु अनासक्तिः अस्ति अत्र संस्कृते एव भवेत् इत्युक्ते तत्र संस्कृत बहुवचनं न सिध्यति खलु संस्कृते अस्माकं संस्कृते प्रीतिः भवेत् वा अस्ति अस्तु अस्तु भवेत् अपि वक्तुं शक्नोति सर्वेषु स्थलेषु किं किमस्ति अत्र सर्वेषु स्थलेषु तत्र विषयस्य आधारः न साक्षात् भौतिकरूपेण तत्र आधारः दृश्यते यथा वृक्षे मर्कटाः सन्ति भौतिकरूपेण तत्र दिश् दृश्यते परन्तु अत्र तत् न तत्र विषयरूप आधारः Hmm, hmm. आधारः hmm. इति बहु बहु सम्यक् सङ्कल्पना अस्ति इति महती सङ्कल्पना इति वक्तुं शक्नुमः आधारोदिकरणम् hmm. इति अत्र hmm. hmm. एकं वक्तुमिच्छामि यथा भवती उक्तवती अस्माकं hmm. मम स्वधर्मे मतिः अस्ति अस्माकं hmm. स्वधर्मे वा स्वधर्मेषु मतिः अस्ति अत्र पश्यतु तत्र अधिकरणरूपेण वा सप्तम्यन्तं पदम् एकवचनान्त भवेत् वा द्विवचनान्त भवेत् वा बहुवचनान्त भवेत् तत्र क्रियापदे किमपि परिवर्तनं नास्ति क्रियापदे वा परिवर्तनं क्रियापदे परिवर्तनं कदा भवति यदा कर्तुपदस्य यत्र परिवर्तनं भवति तदा एव परन्तु आधारवैषयिकरूपेण तत्र आधार तत्र तत्र पुल्लिङ्गे भवेत् वा नपुष्पलिङ्गे भवेत् वा प्रथमा भवेत् वा क्षम्यतां तत्र एकवचनान्त भवेत् वा बहुवचनान्त भवेत् तत्र किमपि परिवर्तनं मास्तु मम मातृ अस्ति वा मम कार्ये रुचिः अस्ति वा अस्माकं कार्ये रुचिः अस्ति अस्माकं कार्येषु रुचिः अस्ति न किमपि परिवर्तनं किञ्चित् व्याकरणं धन्यवाद धन्यवाद अजुना समापयाम, सपयान न न अस्कं कथाया आरंभ अस्तु अग्रिमे वर्गे वह कू तटाद कथा प्रति गुरत आ गति कथा आरम्भं करोतु अम्बिकापतिमहोदय आरम्भं करोति वा कथापठनस्य सत्यङ्गस्य सत्यङ्गस्य सत्सङ्गस्य श्रेष्ठत्वं तत् सत्सङ्ग किं महत्त्वम् अस्ति तत् सत्सङ्गस्य पश्यामि एकदा महर्षि वसिष्ठः विश्वामित्रस्य आश्रमं गतवान् विश्वामित्रस्य तम् आदरेण स्वागति कृतवान् अत्र सः स्वस्य एकसहस्रवर्षत्वकायस्य तपस्य फलम् व्यवीकृ व्यवीकृत्य तेन वसिष्ठस्य सत्कारं कृतवान् वसिष्ठः अपि संतुष्टः अभवत् एतावत्पर्यन्तं किञ्चित् वदतु अनन्तरम् अग्रिमे अपि एकं परिच्छेदं भवानेव पठतु परन्तु एतावत्पर्यन्तं किं दत्तमस्ति वक्तुं मुनिः नाम वसिष्ठः आसीत् सः कस्य विश्वामित्रस्य विश्वामित्र विश्वामित्र समीपे गत्वा सहायम् तत्र वसिष्ठः मुनि विश्वामित्रः मुनि तत् वसिष्ठमुनि कुत्र गतवान् विश्वामित्रमुनेः आश्रमं गतवान् तदा आगतः अतः विश्वामित्रः किं कृतवान् आदरेण स्वागतं कृतवान् तत्र आदरपूर्वक अतिथि इति विचिन्त्य स्वागतं कृतवान् अनन्तरं किं दत्तमस्ति विश्वामित्रः स्वस्य किमस्ति तत् एकसहस्रवर्ष वर्षात्मकस्य एकसहस्र सहस्रवर्षात्मकस्य तपसः फलं स्वीकृ स्वीकृत्य तेन वसिष्ठस्य सत्कारं कृतवान् तत्र महोदय तत्र व्ययीकृत्य इति व्यय इत्युक्ते टु स्पेण्ड् एक्स्पेण्डिचर् तत्र सञ्चितः अस्ति विश्वामित्रस्य समीपे किमस्ति एकसहस्रवर्षात्मक तपः इति सञ्चित सञ्चितरूपेण अस्ति तस्य व्ययीकरणं सः कृतवान् व्ययीकृत्य वसिष्ठस्य सत्कारं कृतवान् एतादृशी आदरभावना मनसि विश्वामित्रमुनेः मनसि वसिष्ठमुनेः कृते एतादृशी आदरभावना स्वस्य एकसहस्रवर्षात्मकं वन् थौसण्ड् इयर्स् तपः फलम् व्ययीकृत्य तत् तपसः अर्पणं कृतवान् अर्पितवान् इति भावः वसिष्ठः अपि अतीव सन्तुष्टः अभवत् तेन किमभवत् वसिष्ठस्य मनसि अपि सन्तोषः आगच्छति इति अस्ति हा अग्रिमे अपि पठतु एकं परिच्छेदं पुनः कदा पुनः कदाचित् विश्वामित्रः अति अति अतिथिरूपेण Uh, वसिष्ठस्य आश्रमं गतवान् mm. वसिष्ठः अपि uh, विश्वामित्रम् आदरेण एव uh, mm. सत् कृतवान् सः mm. uh, स्वस्य अर्थदटि अर्थघटिकात्मकस्य uh, सत्सङ्गस्य फलस्य mm. समर्पणेन विश्वामित्रस्य यथोचितं सत्कारं कृतवान् अधुना का स्थिति अधुना विश्वामित्रः अतिथिरूपेण वसिष्ठस्य आश्रमं गतवान् आसीत् तदा वसिष्ठः किं कृतवान् विश्वामित्रं प्रति किं दत्तं विश्वामित्रमादरेण एव सः स्वस्य अर्धघटिका घटिकात्मकस्य अर्धघटिकात्मकस्य सत्कारस्य फलस्य फलस्य प्रकंसस्य फलस्य समर्पेण समर्पणेन विश्वमित्रस्य तस्य उचितम् सत्कारं कृतवान् अधुना पश्यन्तु सर्वे वसिष्ठः मुनि विश्वामित्रमुनि मुनिद्वयं मुनिश्रेष्ठौ इति वक्तुं शक्नुमः मुनिश्रेष्ठौ एकामेकां एकाम प्रति अपि आदरभावना परन्तु तत्र भिन्नता वर्तते आदरभावनया आदरभावनायाः दर्शनं कथं भवेत् कथम् अभवत् अत्र विश्वामित्रः एकसहस्रवर्षात्मकं तपः तपसः फलं वसिष्ठं प्रति अर्पितवान् परन्तु वसिष्ठमुने किं कृतवान् अर्धघटिकात्मकसत्सङ्गस्य फलम् अर्धघटिकात्मकं सत्सङ्ग एकस्मिन् विभागे द्वितीये विभागे एकसहस्रवर्षात्मकं तपः पश्यन्तु अत्र तुलना कस्य तुलना एकसहस्रवर्षात्मक तपः अर्धघटिकात्मक सत्सङ्ग तपः सत्सङ्ग तपः एफर्ट्स् सत्सङ्ग गुड् कम्पनी सत्सङ्ग सज्जन सज्जनानां सङ्गः सत्सङ्ग् अधुना पश्यन्तु किम् अभवत् अस्तु सम्यक् अस्ति अम्बिकापतिमहोदय धन्यवादाः अर्धघटिकात्मना किञ्चित् वद अर्ध अत्र एकसहस्रवर्षात्मक इत्युक्ते एकसहस्रवर्षेषु एकसहस्रवर्षेषु तपश्चरणं विश्वामित्रेण यत् कृतं तस्य फलं यत्किमपि भवतु नाम तत्सर्वं फलं सः अर्पितवान् हा अधुना वशिष्ट केवलम् अर्धघटिकात्मकसत्सङ्ग इत्युक्ते सज्जनानां सङ्गति सज्जनानां सङ्ग्यते सज्जनानां सङ्ग सङ्गति इत्युक्ते तत्र तेन किं सिद्ध्यति सज्जनानां तत्र सङ्गति यदा वयं कुर्मः तदा तेन मनसः मनसि या भावना सद्भावना वा सत्कृत्यस्य विषयकप्रीतिभावना वा श्रद्धा या भावनाः तत्र मनसि आगताः सर्वेषां यत् फलमस्ति तत् सः अर्पितवान् अत्र तुलना तुलना द्वयोः मध्ये तुलना तपश्चारणं वा सत्सङ्गति श्रेष्ठ श्रेष्ठस्य hmm. कस्य कस्य भवति, तपसह वा सत्संगस्य, अच्छि श्रेष्ठ कस तपसंग क्य श्रेष्ठ अं वर्णि अस्सी त्रेष्ठ एकात्मक तपस् तपस क्षमता विश्वाम एकसहस्रवर्षात्मकस्य तपसः परन्तु वसिष्ठः अर्धघटिकात्मकस्य सत्सङ्गः सत्सङ्गस्य अधुना पशन्तु तपसः फलम् अधिकं वा सत्सङ्गस्य फलम् अधिकं तच्चिन्तनस्य कथायां वर्णितं वर्णितः विषयः चिन्तनस्य विषयः अस्तु महोदय अम्बिकापति महोदय अस्तु अग्रिमे अस्तु रमा भगिनी पठति वा परन्तु एतेन ततः आरभ्य अर्धघटि अर्धघटिका इत्युक्ते अत्र पश्यतु तुलसा कत्र एकसहस्रवर्षण्ड् इयर्स् थौण्ड् इयर्स् तपस्सङ्गतम् अधुना विषय विषयस्य अवगमनं अभवत् खलु वन रमा भगिनी परन्तु परन्तु एतेन विश्वामित्रः असन्तुष्टः अभवत् सन्तुष्टः अभवत् तस्य वृत्तम् असमाधानेन रक्तवर्णः जातः तदा तं दृष्ट्वा वसिष्ठः उक्तवान् मम आदिश् आदि मम आदित्येन भवान् न सन्तुष्टः इति दृश्यते भवतः श्रेष्ठम् उत्तमं सत्सङ्गलम् श्रेष्ठम् इति न जानामि तद् तद्विषये निर्णयं कर्तुम् आवाम् अन्यस्य कस्यापि सहायं स्वीकुर्व कुर्वः इति विश्वामित्रः अन् अधुना एतावत् एतावत्पर्यन्तं किमभवत् स्वशब्दैः वदति वा परन्तु ए परन्तु एतेन विश्वामित्रः न सन्तुष्टं विश्वामित्रस्य असन्तुष्टं वा असन्तुष्टः अभवत् तस्य मुखं रक्तवर्णं जातम् अतः तत्र क्रोधेन क्रोधेन रक्तवर्णम् अभवत् तथा एतद् दृष्ट्वा अवशिष्टः उक्तवान् किमभवत् भवान् सन्तुष्ट न किं नूपेण किमर्थं न सन्तुष्टः इति हा तत्र आतिथ्यपूर्ण पश्यन्तु द्वयोः वर्तनम् आतिथ्यपूर्णम् एव द्वयोः तत्र आदरं द्वयो वर्तने आदरम् एव दृश्यते परन्तु भिन्नता कुत्र अस्ति एक विश्वामित्रः मनसि तपसः महत्त्वम् अधिकम् अतिष्ठस्य मनसि सत्सङ्गतेःत्वं सत्सङ्गस्य सत्सङ्गतेः महत्त्वम् अधिकम् तत् विश्वामित्रः तत्र मनसि तपस्सः महत्त्वम् अधिकम् अतः सः क्रो को, रक्तवर्णं जातं मुखं <laughs> तथा वसिष्ठः तु तत् पश् दृष्टवान् तत् सः उक्तवान् मम अतिथेन इति अधुना तत्र विषयः भवतः तपोबलं श्रेष्ठम् उठ् उत् मम सत्सङ्गफलं श्रेष्ठम् अहं न जानामि अधुना भवानपि न जानाति अहमपि न जानामि किं करणीयम् जाना अन्यस्य साहाय्यं स्वीकुर्म इति कुर्वः तत्र करोमि द्वयोः आवाम् इति अहम् आवां वयं करोमि कुर्मः कुर्मः तथैव आवां कस्यापि साहाय्यं स्वीकुर्मः इति विषयः तप्बलं श्रेष्ठं वा सत्सङ्गफलं श्रेष्ठं श्रेष्ठवाङ्गीकृतवान् अधुना अग्रिमे अपि पठतु अनन्तरम् विश्वामित्रः विश्वामित्रः अङ्गी अङ्गीकृतवान् परन्तु तादृशः निर् निर्णे इति शङ्खा मुत्पन्ना hmm. यतः द्वौ अपि महर्षि द्वयो अपि तपोबलं महत् एव अतः भूलोके hmm. कोऽपि यतो तयोः विषये निर्णयं वक्तुम् उत्साहं नैव अकरोत् अधुना स्थितिसामित्र परन्तु निर्मित ओ द मिडिल् मेन् हू इस् दिडल् किमर्थं द्वौ अपि तत् तत् क्वचित् यतः द्वौ अपि महर्षि तयोः अपि तपोवलं महत् एव तपस्वीर् तपस्वीः अतः भूलोके कोऽपि तयो तयोः विषये निर्णयं वक्तुम् उत्साहं नैव अकरोत् अबौट् दिस् The uh, the the final decision, hmm. I mean the result, ऐ मीन् दिसल्ट् द पर्सन् टु फैनलैस् मै इत्युक्ते द्वयोः मध्ये कः श्रेष्ठ कः कनिष्ठस्य निर्णयस्य विषये कोऽपि न उत्सुकः नैव नोबडि वा ट्रवल् रैट् इत्युक्ते द्वौ मुनौ तत्र द्वौ मुनि तत्र श्रेष्ठत्वं समानदृष्ट्या एव तत्र श्रेष्ठत्वं दृश्यते तत्र कोऽपि तत्रैव अकरोत् कोऽपि तत्र, तत्र अकरो। निर्णयं कर्तुं न इच्छति इति भूलोके भूलोके एतादृशी वयम् अधुना ततः ब्रह्मलोकं गतवन्तौ ब्रह्माणं दृष्ट्वा सर्वं निवेदितवन्तौ ब्रह्मा चिन्तितवान् श्रावणेन अन्योः एत एकतरः रुष्टः भवति एव सः hmm. मह्यं शापं दधा दधात् इति दद्यात् सोरि hmm? oh, दध्यात् इति अतः सः उक्तवान् अहं सर्वदा सृष्टिकार्ये एव मग्नः भवामि मम hmm. मनः तत्रैव लग्नं भवति अतः अहम् hmm. एतत् कार्यं कर्तुं नैव शक्नोमि ौ विष्णुसमीपं गच्छताम् इति अतः द्वौ ऋषयोः ब्रह्मलोकं गतवन्तः ब्रह्माण्डं दृष्ट्वा सर्वं नि, निवेदितवन्तौ सर्वं निवेद निवे निवेदितवन्तौ ब्रह्मः चिन्तितवान् निर्णयेन एकम् एकं ऋषिः कुपितः भवति एव इति चिन्तितवान् दस्व इत्यर्थं इत्यर्थं सः एस्के हा य सः मह्यं शापम दद्यात् इति शापवाणी चिन्तितवान् शाप हा ओके यदा उच्चार्येत् तत् किं भवति शापस्य भयेन हा शापभ्यात् सः उक्तवान् अहं तु किम् उक्तवान् स वदतु भवती सः सः सा, वदन् सः वदति सः सृष्टिकार्यम् एव मग्नः अस्ति आ... <laughs> सः जा, सृज सृजनकर्ता ब्रह्मा सृजनकर्ता सः अहं तु सृष्टिकार्ये मग्नः अहं तु मम कार्ये मग्ना अहं अहं तु मम कार्ये मग्नः तदा अहं तु तत्रैव लग्नम् इत्युक्ते तत्रैव तिष्ठति सृष्टिकार्यमध्ये तिष्ठति हा न जानामि अतः अतः अहम् एतत् कार्यं कर, कर्तुं न शक्नोमि क्षम्यताम् mm. भवन्तौ विष्णु विष्णुसमीपं गच्छताम् इति उक्त उक्तवन्तः तत्र पश्यन्तु सर्वे तत्र त्रयः देवाः तेषां भिन्नाः तत्र पदाः पदा भिन्नानि पदानि इति इत्युक्ते डिफ्रेण्ट् अकौण्ट्स् सृजनकर्ता पालनकर्ता विघटनकर्ता तत्र हानि इति ब्रह्माविष्णुमहेश तत्र uh -huh. मम अकौण्ट् मम समीपे कार्यं किम् अस्ति माय् अकौण्ट् इस् जस्ट् टु yeah. इन्वाल् सृष्टिकार्यं अहं uh तत्र -huh. एव so, लग्ना मम तत्र एव अवधानम् अतः अग्रिमे गच्छतु विष्णुसमीपं गच्छतु विष्णुसमी भवन्तौ विष्णुसमीपं गच्छतां द्विवचनस्य प्रयोगः खलु विवचन् अतः गच्छताम् अस्तु अस्तु एतावत्पर्यन्तं स्पष्टमस्ति राधा ततः तौ विष्णुलोकं गत्वा तं प्रार्थितवन्तौ विष्णुः उक्तवान् मम तपसः अनुभवः नास्ति वा सत्सङ्गस्य अतः अहं निर्णयं वक्तुं न अर्हामि अर्हामि भवन्तौ भगवन्तं शङ्करं यदि निवेदितयतः निवेदयतः तर्हि सः वक्तुं शक्नोति इति एतावत्पर्यन्तं विवृणोतु अग्रिमे अनन्तरं पठतु किम तत्र एतस्य परिषदि द्वौ ऋषि विष्णुलोकम गतवान् प्रार्थितस्य गतवन्तौ तस्य प्रार्थितवान् तत्समये विष्णु उक्तवान् मम तपसस्य अनुभवं नास्ति सत्सङ्गस्य अपि अनुभवं नास्ति तत्कारणम् अहं निर्णयं न कर्तुं शक्नोमि भवन्तौ शङ्करभगवान् शङ्करभगवानस्य निवेदितया निवेदयं करोतु तर्हि सः वक्तुं शक्नोति इति अधुना स्थिति का विष्णु अपि किमपि वक्तुं न इच्छति तत्र विष्णुदेव तस्य किं वदामः तस्य अकौण्ट् किं तत्र कर्ता भर्ता हर्ताकार्यं सृजनकार्यं विष्णोः भर्तारूपम् इत्युक्ते मम तपसः अनुभवः नास्ति मै अकौण्ट् इस् डिफ्रेण्ट् तपसः मम नास्ति एव सद्दङ्गस्यापि न अनुभव अहं तु तत्र शेषसागरे तत्र शेषसयनीरूपं मम तत् mm -hmm. सत्सङ्ग कुत्र अस्ति सत्सङ्गः नास्ति एव mm -hmm. किमपि निर्णयं न ददामि mm -hmm. अधुना शङ्करं प्रति गच्छतु mm -hmm. शङ्करं प्रति गच्छताम् इति द्विवचनम् mm -hmm. अधुना तृतीयः देवः तत् mm -hmm. एकं पठतु भगिनी ऋषिवरौ ततः कैलासं गतवन्तौ भगवान् शङ्करः तु एवम् उक्तवान् समुद्रमन्थनकाले अहम् फलाफलम् पीतवान् तस्य विषयस्य प्रभावेन मम मनः अधुनापि पूर्णतया स्वस्थम् नास्ति अतः अहं निर्णयं वक्तुं न शक्नोमि Hmm. पाताले आदिशेषः निवासति सः तु सर्वदा तपोनिरितः तिष्ठति hmm. सहस्रमुख सः सर्वदा मुनिनाम् सत्सङ्गलाभम् अपि प्राप्नोति hmm. भू भु, भूभारम् वहतः तस्य एव तादृशम् सामर्थ्यम् अस्ति hmm. भवन्तौ तम् एव निवेदयताम् इति किमस्ति अत्र uh, uh, uh, द्वौ ऋषिवरौ uh, uh, कैलासं गतवन्तौ तत्र uh, mm. उक्तवान, समुद्र uh, समुद्रमन्थनकाले अहं uh, uh, हलाहल पीतवान् तत् mm. कारणे uh, मम पूर्णतया स्वस्तम नास्ति अहम् अधुना mm. अधुनापि तत्कारणम् अहं निर्णयं न कर्तुं शक्नोति mm. परन्तु पातालदेशे आदिशेषनिवासति ते ते ते सर्वदा तपो तपोनिरतः तपोनं कर कर्तुम् अस्ति इति एव Okay, तस्य सहस्रमुखमस्ति सर्वदा मुनीनां सत्सङ्गं लाभम् भूभारमपि तस्य सामर्थ्यमस्ति भारं भूलोकस्य भारं तत्कारं भवन्तं भवन्तौ तस्य निवेदितया इति भूलोके कोऽपि <पी> वक्तुं न इच्छति द्वयोः मुनयोः विषये अभवत् निर्णयितुं न शक्नोति अधुना <प्दधा> स्वर्गलोके स्वर्गलोके ब्रह्मणः अपि तत्र तादृशी मतिः न आसीत् <प्दधा> विष्णोः विषये अपि तत्र न इष्टवान् विष्णु <प्दधा> <प्दधा> अनन्तरं कैलासपर्वते अपि तत्र शङ्करः न इष्टवान् द्वयोः मध्ये निर्णयः कः इति न इच्छति सः अपि अधुना पाताले पाताले आदिशेषः हितः आदिशेषः सहस्रमुखानि सन्ति अतः मुनीनां सत्सङ्गलाभमपि तत्र अस्ति सः स्वः सः तपसि रतः अस्ति तपश्चरणं करोति अतः तत्र तपोनिरतः अपि सः सत्सङ्ग सत्सङ्गति अपि लाभः तस्य सत्सङ्गतेः अपि लाभं तस्य कृते भवति अतः तत्र गच्छन्तु गच्छतः गच्छताम् गच्छता, गच्छता इति वदति भूलोके न स्वर्गलोके न अधुना पातानि एतावत्पर्यन्तम् अधुना पश्यामः अग्रिमे किं भवति धन्यवादः भगिनि अग्रि अग्रिमे तत् गीताञ्जलि भगिनी पठति वा वसिष्ठविश्वामित्रौ वसिष्ठविश्वामित्रौ पातालं गतवन्तो तयोः hmm. विवादम् श्रु श्रुत्वा आदिशेषः उक्तवान् भवतोः कोऽपि hmm. स्वप्रभावेन मम मस्तकस्थाम् मस्तकस्थाम् पृथिवीम् शनकालम् यावत् आकाशे निरालम्भा धारयतु तावत् कालपर्यन्तम् मम मस्तकभारम् न्यूनम् भवति तदा अहम् स्वस्थः भूत्वा भवतोः विवादस्य निर्णयं कर्तुं शक्नोमि इति किम् अभवत् अत्र एतस्मिन् परिच्छति हा दोः महर्ष्य पाताललोके गतवन्तौ तयो विवादं निवेदितवान् निवेद निवेदितवन्तोः तस्य श्रुत्वा नागराजा नागशेषः उक्तवान् आक्षेशः उक्तवान् भवतः कोऽपि तस्य भारं क्षणकालं धारयतु इति <coughs> तस्य भारं न्यूनं भवति तदा सः <coughs> विवादस्य निर्णयं कर्तुं शक्नोति इति उक्तवान् अत्र hmm. कल्पना अस्ति आदिशेषः हा, यः आदिशेषः पाताली निवसति सः भूलोकस्य भारं वहति इति हा अधुना आदिशेषः किं अस्तु अहं निर्णयं ददामि परन्तु मम मस्तके पृथिव्याः भारम् अस्ति किञ्चित् काल क्षणकालम् एव तत् पृथ्वीभारं स्वीकरोतु भवतोः द्वयोः मध्ये कोऽपि मम पृथ्वीभारम् स्वीकरोतु तेन आकाशे पृथ्वीभारम् स्वीकरोतु आकाशे निरालम्बा निर निरालम्बाम् धारयतु तावत्पर्यन्तमहं चिन्तनं करोमि स्वस्थः भवामि तत् भवतोः यत् विवादः अस्ति सत्सङ्गति श्रेष्ठ वा तपश्च तपसः सामर्थ्यम् अधिकम् तत् अहं तस्य विवादस्य निर्णयं ददामि परन्तु मम भूभारं यत् मस्तके अस्ति ममे मस्तके अस्ति मम मस्तके भूभारं यत् अस्ति तस्य न्यूनीकरणं भवेत् तदा एवम् अहं निर्णयं दातुं समर्थः इति सः वदति अधुना पृच्छन्तु कः अग्रिमे आगच्छति कः भूभारं स्वीकरोति इति द्वयोः मध्ये अस्तु धन्यवादः पितलि भगिनी अग्रिमे जयन्ती भगिनी अन्तिमम् आदिशेषस्य तथा आम् मेनी पठामि आदिशेषस्य भक्षणम् श्रुत्वा महर्षिः विश्वामित्रः हस्तेन जलम् गृहीत्वा सङ्कल्पम् कृतवान् मया कृतस्य एकः सहस्रवर्षात्मकस्य तपसः बलेन एषा पृथिवी अन्तरिक्षे निरालम्बा तिष्ठतु इति सङ्कल्पम् mm. कृतवान् mm. आदिशेषस्य वचनं श्रुत्वा महर्षिविश्वामित्रः स्वस्य mm. हस्तेन जलम् स्वीकृत्य सङ्कल्पम् कृतवान् यदि mm. mm. uh, मया कृतस्य एकसहस्र सहस्रवर्षात्मकस्य uh, uh, तपसः बलेन uh, एषा पृथिवीम् अन्तरिक्षे किमपि आधारं बिना तिष्ठतु इति सङ्कल्पितवान् mm. Hmm. पृथिवी आदिशेषस्य हस्ता मस्तकात् किञ्चिदपि न स्थिता महर्षिविश्वामित्रस्य सङ्कल्पेन पृथिवी किञ्चिदपि आदिशेषमस्तकस्य उपरि न स्थिता भूलोकस्य भारः आदिशेष उपरि तत्र एव स्थगितः किमपि तत्र परिवर्तनम् अभवत् तपसः बलात् एव तत्र किमपि किमपि कार्यं नतः ततः महर्षिवशिष्ठः सङ्कल्पं कृतवान् मया वृत्तस्य अर्धकटिकात्मकस्य सत्सङ्गस्य बलेन पृथ्वी अन्तरिक्षे तिष्ठतु इति सङ्कल्पम् कृतवान् वशिष्टेन सङ्कल्पं कृत कृतम् यदा अर्थघण्ट अर्थघटीकात्मकस्य सङ्ग सत्सङ्गस्य बलं बलेन पृथिवी अन्तरिक्षे अन्तरिक्षे किमपि आधारं विना तिष्ठतु इति सङ्कल्पम् कृतवान् भोः आश्चर्यम् पृथिवी अन्त अन्तराले निरालम्बय अतिष्ठत् अहो आश्चर्यम् आश्चर्यम् भवत् आश्चर्यम् अभवत् पृथिवी अन्तरिक्षे निरालम्बतया किमपि आधारेण आधारेण विना विना अन्तरिक्षे अतिष्ठत् वादस्य निर्णयः प्रत्यक्षम् दृष्टः आसीत् विश्वामित्रः स्वस्य पराजयम् अङ्गीकृत्य वशिष्टम् नमस्कृत्य उक्तवान् भगवन् भगवन् सत्सङ्गस्य एव बलम् अधिकं भवतः सत्सङ्ग अहमपि धन्यः भवामि इति वशिष्ठस्य सङ्कल्पं प्रत्यक्षं दृष्टम् अतः विश्वामित्रः पराजितः अभवत् इति प्रत्यक्षम् एव विश्वामित्रः वशिष्ठम् नमस्कृत्य उक्तवान् भगवन् सत्सङ्गस्य एव बलम् अधिकम् इति भवतः सत्संगत अहमपि दन्यः भवामि इति विश्वामित्रः स्वस्य पराजितम् अङ्गीकृतवान् hmm. सत्संगस्य प्रभावः प्रत्यक्ष प्रत्यक्षफलदायिन इति तत्र दृश्यते न तपसः इति पश्यन्तु अत्र आदिशेषः अस्ति पृथिव्याः भारम् सः वहति अत्र मुनिद्वयम् अत्र विश्वामित्रवशिष्टः किं श्रेष्ठस्य फलं सत्सङ्गतिः श्रेष्ठा इति अस्तु अतः कथायाः नाम किमस्ति सत्सङ्गस्य श्रेष्ठत्वम् अधुना वदन्तु एक एकमेकम् शङ्कराचार्य uh, uh, शङ्कराचार्यवर्येण uh, विरचितं uh, भजगोविन्दस्य एकवाक्यम् एकश्लोकम् यः एव अहं मम मनसि मा, uh, uh, भवतु भगिनी त्सङ्गत्वम् निर्सङ्गत्वे निर्मोहत्वं निर्मोहत्वे विश्चलतत्वम् विश्चलतत्वे जीवन्मुक्तिः एतत् ये एव मनसि बहु बहु सम्यक् बहु सम्यक् उत्तमम् उत्तमम् सत्सङ्गस्य महती अधिका एव उत्तमं धन्यवादः धन्यवादः अग्रे राधाभगिनी रमाभगिनी वीणाभगिनी गीताञ्जलिभगिनी एकमेकं एकम वदन्तु अम्बिकापतिमहोदय सर्वे स्वस्य अभिप्राय कथायाः विषये मनसि कुत्र सत्सङ्गति वा तपः तपसः कस्य फलम् अधिकम् सत्सङ्गेन मम विचारं परिवर्तनं कर्तुं शक्नोति इति अहं तस्य कर्तुम् अर्हति तत् तपोबलम् अस्ति परन्तु सत्सङ्गेन अहं वि केन् चेञ्ज् अर् सेल्फ़् थिङ्क् डिफ्रेण्ट्लि तत्कारणं ते श्रेष्ठं मन्ये इति चिन्तयामि सम्मेट, योग्यं सम्यक् योग्यं वीणाभगिनी किम चिन्तयति रमा भगिनी किं चिन्तयति वदतु तपशस्य सत्सङ्गी सुलभः सत्सङ्गति इति सुलभा तत्र पश्यन्तु भगवद्गीतायामपि भगवतः वचनानि तत्र भक्तिमार्ग मार्गयोगमार्ग तत्र भक्तिमार्गः इति सुलभः तथैव यदा भवती उक्तवती सत्सङ्गति सुलभः अस्ति सुलभतया वयम् अधिकम् अधिकं फलं प्राप्तुं शक्नुमः सत्सङ्गत्य इति अस्ति योग्यं योग्यं सम्यक् विणा भगिनी किं वदति अद्य एव अहं जानामि भगिनि हा वदतु अद्य एव अहं जानामि एतत् जानामि तत् तपशक्त्यस्य उपरि सत्सङ्गम् आगच्छति इति तपश्चरणात् सत्सङ्गति श्रेष्ठा इति तत्र नहीं। वयं न जानीमः परन्तु सत्सङ्गति यदि सत्सङ्गतौ यदि वयं तिष्ठामः तस्य फलम् अधिकमस्ति तत् क्षणमात्रम् अर्धघटिका यावत् सत्सङ्गस्य फलं तत्र दृश्यते कथायाम् अतीव महत्वपूर्णा सत्सङ्गति इति अस्तु अस्तु भगिनी सुलभमेव न प्राप्नोति तस्य सत्सङ्ग इति लाभस्य विषयः सत्सङ्गस्य लाभः तद्भवेत् जीवने तत् लाभाय सत्सङ्गति अस्माभिः करणीया इति बहु लाभाय जीवने गीताञ्जलि भगिनी किं वदति वक्तु वक्तुमिच्छति वा सत्संगं बहु उत्तमं अहम् अहमेव सत्सङ्गं बहूनि दर्शनं करोमि तत्र एकश्लोकं भगवद्गीता श्लोकमेकः अस्ति क्रोधः क्रोधस्य क्रोधः विश्व क्रोधात् भवति सम्मोहः अत्र क्रोधः किञ्चित् प्रयोजनं नास्ति Hmm, hmm. इत्युक्ते तत्र यथा विश्वामित्रः तत्र कुपितः तत् hmm. तस्य मनसि विचारः आगतः तत् मम मम स्वागतं सम्यक् रीत्या मुनिवसिष्ठेन न कृतम् परन्तु न तथा तत् तादृशी नास्ति क्रोधे क्रोधभावनया यथा भवान् तस्य मनसि सम्मोहः जातः परंतु तथा स्थित तादी स्थित नव अतः संग सत्सते महत्व तस् क्षण सह नवगत अत अनम तत्तस प्रपंचम ब्रह्मण ब्रह्मण मत कि अन विष्णो मत कि शंकर मत कि शेष आदिशेष कितव अग्रिमे आगछति परंतु समोह तो अब्वा मनसी सत्यं सत्यं योग्यं गीताञ्जलि भगिनी किमपि वक्तुमिच्छति वा भगिनी अहं भगिनी सत्सङ्गं सुलभम् अस्ति अस्तु अस्तु अस्तु चिन्ता मास्तु अस्तु अस्तु अस्माकं समयः अपि जातः शान्तिमन्त्रेण वयं समापयामः वदति वा कृपया सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभात् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओं तत्सद् श्रीगुरुभ्यो नमः हरिः धन्यवादः um...